गरुडपुराणं प्रेतकाण्डं धर्मकाण्डम् अध्यायम् सेवन् गरुड उवाच श्रुतं मे महदाख्यानं वृषोः सर्गफलं हरे पुनरन्यां कथां ब्रूहि यत्र ते महिमाद्भुतः उवाच अहं ते कथयाम्यद्य संवादम् परमाद्भुतं सन्तप्तकस्य च प्रेदैस्तद्रूपाज्ञापनाय वै विप्रसन्तप्तः कच्चित्तपः सा दग्धगिल्विषः संसारा शारदाम् ज्ञात्वारण्यश्वेव चचारः वैखानस मुनिव्रादै प्राणिपादकृते क्षणः यात्रामुद्दिश्य स्माडति द्विजः प्रत्याकृष्टेन्द्रियत्वाच्च बहिर्वृत्तिनिरोधकः संस्कारमात्रगमनो मार्गभ्रष्टो बभूवः चलन्नेवं स्नानकाले मध्याह्ने धाभिलाषुकः जलस्योन्मील्य नयने दिश सर्वाण्यभिलयत स ददर्श तदा गुल्मैर्वो रुदुवृक्षशतैश्चिदं त्वत्सारै शाखि शाखाभिः सङ्कुलं गहनं वनं तत्र तालास्तमालाश्च प्रिया जापनसास्तथा श्रीपर्णो शालशाखोडस्यन्दनास्तिन्दुकास्तथा सर्जार्जुना माधकाश्च श्लष्मातकभितकौ पिचो मर्दश्चिञ्चिणी च कर्कन्धूकर्णिकारकाः एते च अन्ये च बहवो वृक्षास्तेषु न दृश्यते पक्षिणामपि वै पन्था मनुष्यस्य कुतः तस्मिन् वने महाघोरे सिंहव्याघ्रसमाकुले तरक्षुगवयैर्यक्षैर्महिषैश्च निषे विदेर् कुञ्जरैरुभिर्नागैर्मर्कडैश्च तथा मृगैः श्वापदैश्च तथा चान्यै पिशाचैराक्षसायैर्वृतेर् सन्तप्तको द्विज किञ्चिद्भयः सन्त्रस्तमानसः कान्तिशीकसमभवद्भविष्यो ययौ पुनः चङ्गारेषु चिल्लीनां कूकानां कोत्कृतेष्वपि दत्तकर्णकुनीलाङ्गश्चचालपदपञ्चकं स तत्र वडवृक्षाग्रे स्नायुबद्धं शवं तद्धा ददर्श तद्भुजश्चैव पञ्चप्रेदान् चिरास्ति चर्म शेषाङ्गान् पृष्ट लग्नोदरान् खग त्यक्तान्नासिकया नेत्र कूपपादभयादिव सूची कृक कचकभ्रादकादपादिदकीकसान् वस्सानमवस्तिष्कस्वादनित्यमहोत्सवान् हादंष्ट्रानस्ति ग्रन्थ्यवकट्टितान् तान् दृष्ट्वा प्रस्तहृदयोगतिमा कुञ्ज्य संस्थितः ते विलोक्यागतं विप्रमडवीं जनवर्जितम् अहम् पूर्वमहं पूर्वं यामीत्या प्रदुद्रुगुः पादाव पादावगृह्णीता मूर्धानं पञ्चमोऽग्रहीद स्वजात्युचितवाक्येन स्फुटवर्णवताब्रुवन् अहं चक्षाम्यकं भक्ष्यामिति कर्षणतत्पराः सहसैव सखैव गृहीत्वा व्यगमन्वीयद क्रियस्थितं वडौ मांसं क्रियन्दिन्यभालयन् ते पश्यन्निजदंष्ट्राह्यः पाडितान्द्रमिमंसि शवम् अवतीर्य ततो व्योम्नो गृहीत्वा शरणै शवं, शवं स्वखण्डितश्रिशरीरस्तु पुनर्व्योमैव चक्रमुः सनीयमानमात्मानं विलोक्य वियदि द्विजः जगाममनसा मांस शरणं भयविह्वलः नमश्चक्रे चक्रधरं चेदशा समं वक्रं नक्रं चक्रपादेन दूरे कृत्वा कृत्वा तस्य दुःखं मुकुन्दः मादङ्गं यो मो मोचन्नक्रवक्त्रात् पाशं सोऽसौ रुद्धान् शुद्धान् भूपदीन्मागधेन भीमेनैनं साधयित्वा मुरारिः भर्ग भर्गयज्ञाय मुक्तश्चक्रो मे सौ कर्मपाशं मनसै मनसैवैः मामस्तौ स्थूय मानोहमुद्धिदः अगच्छं सखसा यत्र प्रेदयशनीयदे दृष्ट्वा तैर्णीयमानन्दुकौदुगम् मे भवद्गगप्रन कियन्तं वैकालं तान् पृष्टदोन्वगम् मम सन्निधिमात्रेण द्विजातिं तञ्च सर्पहन् तत्कालं शिविका सुप्त भूपाल सुखमाविशद मणिभद्रस्तदो मेरुं गच्छन् दृष्टो निको निकोच्याक्षिस्वपार्श्वं सनिधो वैयक्षरान्मयात् तमवोजमहायक्षं त्वं कि प्रतिभटो भव प्रेतन्नाश्रय तद्भूय शवं च कर तद्गतम् इत्युक्तः स महाघोरं कृत्वा रोषं सुदुःसहं जग्राहप्रेदरूपं तत्प्रेधानमपि दुःखदं स विवृत्य स्वकौ शृक्णीपरिलेलिहन् भेदयन्नुरुवादेन प्रदां स्तान् सम्मुखो ययौ बाहुभ्यां द्वौ द्वौ च पद्भ्यां मूर्ध्नयिकं च समाहरद प्रेतानाथापि सहसा जघानदृढमुष्टिना ते विवर्णमुख सर्वे तं द्विजं च शवं तद्धा यकैकम् हस्तपादैश्च गृहीत्वा युद्धमारभन् ते नखैस्तलखादैश्च पादखादैस्तथैव च दंष्ट्राखादैश्च सर्वे तमेकम् प्रेदम् व्यधारयन् तेषाम् प्रकारान् विफलान् कृत्वा सम्प्रतिदा न जीवम् न दुशावम् तेषाम् जग्रे प्राणमिवान्धकः हृदमात्रे शवेते दुपारि यात्रे गिरौद्विजन् मुक्त्वा धावन् प्रमुदिता एकं प्रेदं सुधा जुनाः स क्षणमात्रदः अदृश्यतां ययौते प्रारब्धमात्रे विप्रस्य पाठने तत्र भर्वदे मम विप्रस्य महिम्ने वच तत्क्षणे सद्यस्मृतिसमुत्पन्ना तेषाम् पूर्वस्य जन्मनः विप्रम् प्रदक्षिणीकृत्य द्विजर्षभमदाम् ब्रुवन् अद्य नः क्षन्तुमार्होऽसीत्युक्तुवा ते सुरादाम्भिकाः सुरदाम्भिकाः गिरेजिवपरावर्तम् समुद्रस्यैवशोषणम् तेषाम् श्रुत्वा पृच्छत्के यूयमित्यथ किं माया किमु वा स्वप्न उदाहोचित्तविभ्रमः प्रेदाजुः अवेहितत्वा मे वैदत्प्रेदा वै कर्मजा वयं ब्राह्मण उवाच किं न मा न किमाचारा कथं जे मां पूर्वं विनीता साम्प्रतं कथं प्रदाजुः शृणुविप्रेन्द्र वक्ष्याम प्रश्नात्मनुगुर्वशः उत्तराणि महा योग्यं त्वद्दर्शनगदां हसः अहम् पर्युषितो स्मृदः एष शुचिमुखस्मृतः गस्तुर्यो रोधको लेखगपरः ब्राह्मण उवाच प्रेतानां कर्मजातानां कुतो नाम निरर्थकम् निरुक्तिमेषां नाम्नां वैप्रदा वददमाचिरम् श्रीकृष्ण उवाच एवमुक्तास्तु विप्रण पृथगुत्तरमब्रुवन् पर्युषित उवाच कदाचिच्छ्राद्धकाले वै मया विप्रो निमन्त्रितः स च वृद्धो मद्गृहमागतः आकृतश्राद्धकर्माकं तं पाकं अददामन्नमाकृष्य विप्रे पर्युषितम् कियद तस्मात् पापान्मृदपापो योनिम् वै कुत्सिदाम् गतः यत पर्युषितम् दत्तम् ततः पर्युषितस्मृतः शुचीमुख उवाच कदाचिद् ब्राह्मणि काचितीर्थम् भद्रवडम् ययौ पञ्चवर्षसुधा वृद्धा पुत्रमात्रैकजीविता आकं क्षत्रीयदायादस्तस्य रोधमकारिष्यम् वने दुविजने तत्र पापाध्वगगदिम् गतः तस्याः सवस्त्रम् पाधेयम् तत्सूनोर्वस वसनानि च गृहीतानि मया विप्र शिरस्या तृशार्थत्क्षणम् बालः पात्रसंस्थम् जलम् पिबन् तावन्मात्रोदगे देशे मया कुङ्कृत्य वादिदः मया ध सकलम् बेदम् जलम् पात्रा तृषावदा बालोऽपि भयसन्द्रस्तपिपा सुव्य सुरापद पुत्रशोकान् मृदा मादा यदस्मात् पादगद्विप्रेदत्वं प्राप्तवानहं सूच्यग्रप्रायविवरमुखपर्वदेहवान् यद्यपि प्राप्नुयां भक्ष्यं भक्षि त्वन्तु न शक्यते मया क्षुधा नलेनाभिज्वलदास्यं निकोचितम् अत्र आस्यद् विवरं मम यदस्मात् कारणाद्विप्रणाम्ना सूजीमुखोऽस्म्याकं शीघ्र उवाच पुराकं वैश्यजातीयसकं सख्या च केनचिद वाणिज्यं कर्तुमगमं देशमन्यमहाधनः मित्रं च मे बहुधनं तस्य लोभो महांस्ततः जातोऽप्यदृष्टवै मुख्यान्मे नष्टमूलमप्युद ततस्तस्मात् ता निष्कान्दा वाम्नावादनिम्नगां मार्गगां तर्तुमारब्धौ लोकिता यदि भास्करे सकास्त च मदुत्सङ्गे सुपाध्वक्लमाकुलः क्रुरा मदिरदीव मुत्सङ्गगदं सूर्ये नष्टे पूरे क्षिपं तदा तत्कृत्यं कुर्वदो न विलोकैस्तु ज्ञादमेव न तस्य यद्वस्तु तत्सर्वं मणिमुक्दादि काञ्चनम् आदाय शीघ्रगस्तस्माद्देशात् स्वगृहमागतः तत्सर्वं स्वगृहे मुक्त्वा तस्य दस्यु दस्युभिर्मेहदो भ्रातधनमाच्छिद्यवैपथि प्रजावधि प्रदृतोहमारोदित्येवमब्रवं शोकार्तासापि तत्कालं मम त्वं गृहबन्धुषु त्यक्त्वा चादिप्रियान् प्राणान् जुहावाग्नौ यथाविधि ततो निष्कण्ठकं तद्धि वीक्ष्य पृष्ठो गदो गृहम् अभुञ्जं सर्वमागत्य यावज्जीवं तु तद्धनं मित्रं भूरेहि निशिक्षिप्य यदहं शीघ्रमागतः यदस्मात् कारणात्प्रदशीघ्रगोहं तु नामदः रोदक उवाच अहन्धुशूद्रजाधीय पुरा भुवं मुनीश्वर राजप्रसादात्त महा शदग्रामाधिकारवान् वृद्धौ मे पिदरावास्ताम् लघुरेकसहोदरः शीघ्रम् सजमयभ्राधा लुब्धेनैकपृथक्ृदः आप्तवान् परमम् दुःखम् सौन्नवस्त्रविवर्जितः अदत्ताम् पितरौ छन्नम् किञ्चित् किंजित, किञ्चित् तु तस्य ज तस्मै पितृभ्याम् यद्दत्तमाप्तेभ्यस्तन्मया तत्सर्वं तत्वदो ज्ञात्वा पित्रो रोधमकारयम् शून्यमन्दिर यकस्मिन् बद्ध्वाधुनिगडैर्दृढैः तदस्तौ जहदुप्राणान् दुःखितौ विषपनदः सोऽसौ बालोऽपि बभ्रामेपि दृभ्यां रहितो द्विजा पुरपत्तनखर्वाडान् खेडानपि मृदः क्षुद्धा यदस्मात् पादकद्विप्रमृतप्रेतत्वमागतः रुद्धौ तुपितरौ यस्मान्नाम्नासं रोधकस्ततः लेखक उवाच असंविप्रभुरा भूव म वन्द्यां भद्रस्य राज्ञो देवानां पूजनेऽधिकृतो ह्यहं बभूव बहुनामिकाः हेम्नस्तदङ्गेषु बहुरत्नजादम्बभूवः आसाम्य कुर्वद पूजा बाबा अखिलं तीक्ष्णलोकेन तासामङ्गं विशीर्यज उल्लेखनं च रत्नानां नेत्रादिभ्यकृतं मया तदा कृतान्यधङ्गानि प्रतिमानां निरीक्ष्यज नेत्राणि च विरत्नानि नृपश्चु क्रोधवन्निवद प्रतिजत्ने नृपश्च देशब्राह्मणभुङ्गवः सुवर्णं च हृदं येन हिमेवद्यो भविष्यदि न संशयः अहं तत् सकलं ज्ञात्वा रात्रा वसिधरो गृहम् राज्ञ प्रविश्य राजानं पशुमारममारयद गृहीत्वा गमणिं स्वर्णं निशीधे सङ्गतोन्यदः व्याकरणमः तारण्ये न खड्डङ्कैर्विडङ्कितः लेखनात् प्रतिमाया जन्मया लोहेन करुदिदम् यदस्मात् पादकात्प्रेदो लेखको नाम दोऽस्म्यहम् आसीन्नरगभोगान्धेर्न प्रेत त्वमिदम् द्विज ब्राह्मण उवाच संज्ञास्तादृश्य आख्यादा यथ इदा भवदा दशाः वदन्तु आचारमात्रं प्रेदा आहारमप्युद दा ऊजुः वेदमार्गानुसरणं लज्जाधर्मो दमः क्षमाः धृतिर्ज्ञानं नैव यत्र तस्य पीठावपं कुर्मो नैव श्राद्धं न दर्पणं यस्य देहे तदङ्गात् मां सञ्च रुधिरं क्रमाद यक्षामश्च पिबामश्च उक्त आचारयश नः शृणु चाहारमस्माकं सर्वलोकविगर्हितम् दृष्टस्त्वया च किञ्चिद्वै ब्रूमो ज्ञादम् त्वजनख वमनं विदूदूषिका जश्लेष्मा मूत्राश्रूणि तदा। ये दद्भक्ष्यम् जानम् जमा पृच्छाध परम् द्विजा लज्जानो जायते स्वामिन्नाहारम् वदताम् स्वकम् अज्ञानास्तामसामन्दाकान्ति शीका वयम् विभो अकस्माज्जन्मनाम् विप्रस्मृति प्राप्तादो पौविकी विनी विनीतत्वे जानीमो नैव न प्रभो श्रीकृष्ण उवाच एवं वद सुप्रेदेषु तथा श्रुतवदि द्विजे अदर्शयमहं रूपम् तदा ताक्ष्येदमे वै सदु दृष्ट्वा द्विजश्रेष्ठो हृद्गदम् पुरुषम् पुरः स्तोत्रायिस्तुष्टावपक्षीश दण्डवत्प्रणनाम तेऽपि तदप्रेदा पुस्तदप्रेदा अश्च ज्योद्भुल्लचक्षुषः प्रणयेन स्खलद्वाजकगनो जुक्किमप्युद रजसगोरचित्तानां तमसा मूढचेदसां कृपया यत् अमुद्धारं कुरुषे वै नमोऽस्तु एवम् द्विचादौ भ्रुवति प्रभूतप्रभश्चैव ब्रभैश्च मुख्यम्बरचारियुक्तैः तदा मदिच्छाप्रभवैर्विमानयिषद्भिः समन्दाद्रुरुचे गिरिः सहा युद्धं विमानेन मदीयलोकं गतोऽ द्विरसोऽप्यथ गदो द्विजरसोऽप्यथ पञ्चमिस्तैः प्रेदायै स्वर्गमगण्यपुण्यं तत्सङ्गसर्गवशात्सुपर्णम् प्रेदा सङ्गवशेन नागमवन् सन्तप्तको ब्राह्मणो विश्वक्सनयिति प्रसिद्ध विभवो नाम्ना गणे मे भवद यदते सकलं मया निगादिदं कीर्तयेद्यश्चेदं शृणुयान्नसोऽपि पुरुषप्रेतत्वमाप्नोति हि यदि श्रीकारुडे महापुराणे उत्तरखण्डे द्वितीयांशे धर्मकाण्डे श्रीकृष्णगरुडसंवादे प्रेतकल्पे पञ्चप्रेदोपाख्यानं नाम सप्तमोऽध्यायः ओम्